गणेशपुराण क्रीड़ाखंडम अवंटी क उवाची य भयभ्रांतुराक तवद दधारयन लखुबालवद कृत्वा पद्मा चारु गणेश उवाच चैनं दैत्येन्द्रं वरं स्मर निजं शुभं स दैत्योरधनं चास्य धृत्वा हस्तद्वयेनः दोलयामास देहं स्वमन्तरीक्षे मुहुर्मुहुः यावत्पपादभूपृष्ठे भुङ्वा दन्तं सुरान्तकः तावद्दधारतं देवः स्वदन्तं दाखवाद् विभुः अहनत्तेन दन्तेन मस्तकेतं सुरान्तकं जगर्ज च महारावैर्गर्जयन्विदिशो दिशः चालयन् पृथिवीं सर्वां पादालान्यखिलानि च द्विजाद ना किदेह से तत्वृष्टिपदु उत्पादमे उत्द लोका सर्वे भूतलवासीन दैत्यदेहगदं ज्योतिस्तं विवेश्य विनायकं पश्यतां सर्वदेवानां प्रधनालोकितं पुनः देहस्तु निपपातस्य धरापृष्ठे त्रियोजनं चूर्णयन् वृक्षसङ्खादान् पर्वतान् पादपैर्युदान् एवं दृष्ट्वा गतिं तस्य सैनिकाश्च दिशो दश यादाश्च कतिचिन्नाश्यम् प्राप्तास्तद्देहपाददः मुमुचुः पुष्पवर्षं ते देवास्वस्थानमागताः देवदुन्दुभयो नेदुर्नृपदुन्दुभिनिस्वनैः दिशश्च विमला आसन् वव्रुर्वादासुखावः तेजांसि वह्नेर्लोकानां प्रसन्नानि तदा भवन् प्रतिकूलवहानद्य आसन् सन्मार्गगास्तथा ततः शक्रादयो देवा मुनयस्तं पुपूजिरे तुष्टुगुः परया भक्त्या देवदेवं विनायकं विमोचिदावयं बन्धाद्देवान्धक कृदाद्विभो उपेन्द्र इव देवेन्द्र कार्यं यस्मात् कृतं त्वया उपेन्द्र इदिनामनात्वं नाम्ना त्वं गमिष्यसि वयं स्वस्वाधिकारेषु निरादङ्गावसामहे स्वाहा स्वधाषत्कारा भविष्यन्ति गृहे गृहे एवमुक्त्वा नमस्कृत्य देवं तेजप्रदक्षिणम् अनुज्ञादायुः सर्वं स्वं स्वं मुदान्विताः मुनयश्च तदा देवायर्हृषी केशेदि नाम च कृत्वा नत्वा ययुस्वं स्वमाश्रमम् हर्षनिर्भराः तदः सर्वे धराधीशासम्पूज्य च प्रणम्य चुर्विनायकं देवमुद्धृता दैत्यभारभराक्रान्ता तस्मात् त्वं धरणीधरः इत्युक्त्वा ते गदा स्वस्वपत्तनानि तदाज्ञया ततः पश्यति स्म काशिराजो विनायकं सिंहारूढं बालरूपं क्रीडन्तं बालकैः बालोपितं बालोऽपितं नृपं धृष्ट्वा परमादराद लिलिङ्गपरमादराद उभावानन्दभरितौ मुञ्जदोश्रोणिनेत्रतः तदऊचे नृपो देवं महद्भाग्यं ममोदिदं ब्रह्मादीनामगम्यं यत् परं ब्रह्मसनातनम् तन्मे दृग्गोचरं नित्यं पूर्वपुण्यबलोदयाद् विश्वस्य कारणानां च कारणं तद्विवर्जितं वेदान्तवेद्यं सज्ज्योतिर्ज्योतिषमपि भास्वरं नानारूपमरूपं यद् बालरूपेण मे गृहे क्रीडते स्वेच्छया पृथ्वी भारहारिमनोहरं क उवाच एवं श्रुत्वा स्तुतिं तस्य प्रमृज्याश्रूणि विघ्नराट उवाचनक्षणं त्वत्तो यामि दूरं कदाचन ततो राजा पुपूजैनमुपचारैरनेकशः तदो वादित्र निर्घोषैर्बन्धिशब्दैर्विमिश्रितैः सुरान्तकवधाद्धर्षयुक्तैः सेनाचरैः सह विनायकं बालरूपं स्तुवद्भिः स्वपुरं ययौ विसृज्य सर्वलोकांश्च दत्त्वा वासांसि चैकशः ताम्बूलानि च केषाञ्चित् पुरस्कृत्यविनायकं विवेश्य स्वगृहं रम्यम् हर्षनिर्भरमानसः इति श्रीगणेशपुराणे क्रीडाखण्डे बालचरिते पुरप्रवेशो नाम सप्ततितमोऽध्यायः ओ